यदि जगुपितं चेतो ह्येदुन्विनैव तव प्रिये प्रखरपरुषं वर्ण्य विनिन्दरुषं त्यजे अहः दहति क्रूरः मारः प्रयुज्य सरान् बहून् व्यथितवपुषु मारग प्रयुज्य शराणि बहून् व्यधिपुषु क्रूरग मारग प्रयुज्य शराणि बहून् व्यधिध वपुषु उ आमि या मे कथं समुपेक्षसे दिशि मम धरस्मेराम् दृष्टिं दिशेदवलोक्य त्रिचतुरपदम् प्रत्युद्गच्छे निम्बभरालसा उपगतमपि प्रेमा वेशात् निगूहनचुम्बन प्रथमवचने गी दञ्जू कुर्यात्रि भवति कदा भवति कदा